नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने आह्निककथनं नाम विंशतितमोऽध्यायः दृढधन्वोवाच पुरुषोत्तममासोऽयं कथं कार्यो मुमुक्षुभिः कीदृशी कस्य पूजा च किन्दानं को विधिर्मुने एतत् सर्वं समाचक्ष सर्वलोकहिताय मेहितार्थाय चरन्ति भवादृशा असौ मासः स्वयं साक्षाद् भगवान् पुरुषोत्तमः तस्मिन् कृते महत्पुण्यं त्वन्मुखात् संश्रुतं मया पूर्वजन्मन्यहं भूत्वा सुदेवो ्राह्मणोत्तमः विधिना कृतवान् पुत्रं मृतोत्थितम् अजानतोऽपि मे ब्रह्मन् पुत्रशोकादचेतसः निराहारस्य सततं गतश्च पुरुषोत्तमः तस्याप्येतत्फलं जातं शुकदेवो मृतोत्थितः अनुभूतमिमं मासंसेवे हरिणोदितः इह जन्मनि तत्सर्वं विस्मृतं मे तपोधन एतत् पूजाविधानं मेरतः बृहत्सोदकभाजनः ग्रामाद्दूरतरं गच्छेत् पुरुषोत्तमसेवकः ध्यासुकरणस्थ ब्रह्मसूत्र उदङ्मुखाजिणैर्भूमि वक्त्रं नियम्य यत्नेनोच्छ्वसेदपि कुर्यान्मूत्रपुरीशञ्च रात्रौ चेद्दक्षिणामुखः गृहीतशिष्णश्चोत्थाय गृहीतशु मृत्तिकः गन्धले पक्षयकरं कुर्याच्छौचमतन्द्रितः एकालिङ्गे गुदे पञ्च त्रिर्वामे दशचोभयोः द्विसप्तपादयोश्चैव गार्हस्थ्यं शौचमुच्यते कृत्वा शौचं तु प्रक्षाल्य पादौ हस्तौ च मृज्जलैः तीर्थे शौचं न कुर्वीत कुर्वीतोद्धृतवारिणां त्यक्त्वा कुर्यादनुद्धृते पश्चात्तच्छोधयेत्तीर्थम् अशुद्धमन्यथा हि तत् एवं शौचं प्रकुर्वीत् पुरुषोत्तमसद्व्रती ततः षोडश गण्डूषान् प्रकुर्याद्वादशैव वा मूत्रोत्सर्गे तु गृही उत्थायनेत्रे प्रक्षाल्य दन्तकाष्ठं समाहरेत् इमं मन्त्रं समुच्चार्य आयुर्बलं यशोवर्चः प्रजाः पशुवसूनि च ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पति अपामार्गं बादरं वा द्वादशाङ्गुलमव्रणं कनिष्ठाङ्गुलिवत् स्थूलं पूर्वार्धकृतकूर्चकम् शुचिर्द्वादश गण्डूषैर्निषिद्धं भानुवासरे आचम्यप्रयतः सम्यक् प्रातः स्नानं समाचरेत् स्नादनन्तरं तावत् तर्पयेत् तीर्थदेवताः नदीस्नानं उत्तमं परिकीर्तितं वागेषु मध्यमं कथितं बुधैः गृहे तु सामान्यं गृहस्थस्य प्रकीर्तितम् ततश्च वाससि शुद्धे शुक्लेच च परिधाय च ब्राह्मणेन विजानत उपविश्य शुचौ देशे प्राग्मुखो वा उदङ्मुखः भूत्वा बद्धशिखः सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् नोच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु भर्जयेत् आचम्यतिलकं कुर्याद् गोपीचन्दनमृत्स्नयां ऊर्ध्वपुण्डम् ऊर्ध्वपुण्ड्रं ऋजुं सौम्यं दण्डाकारं प्रकल्पयेत् ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा मध्ये छिद्रं प्रकल्पयेत् निवसत्यूर्ध्वपुण्ड्रे तु सह हरिः त्रिपुण्ड्रे धूर्जटिस्साक्षाद् साक्षादुमया सह सर्वदा विना शुनः पादसमं विदुः श्वेतं ज्ञानकरं प्रोक्तं रक्तं वश्यकरं दृणाम् पीतं सर्वर्धिदं प्रोक्तम् अन्यत्तु परिवर्जयेत् शङ्खचक्रादिकं धार्यं गोपीचन्दनमृत्स्नयां सर्वपापक्षयकरम् शङ्खचक्रादिचिह्नानि दृश्यन्ते यस्य विग्रहे मर्त्यो मर्त्यो न विज्ञेयः स नित्यं भगवत्तनुः पापं सुकृतरूपं तु जायते तस्य देहिनः शङ्खचक्रादिचिह्नानि योधारयति नित्यशः नारायणायुधैर्नित्यम् चिह्नितो यस्य विग्रहः पापकोटियुतस्यापि तस्य किं कुरुते यमः ततः कृत्वा प्राणायामं ततः कृत्वा सन्ध्यावन्दनमाचरेत् पूर्वसन्ध्यां स नक्षत्रामुपासीत यथाविधि गायत्रीमभ्यसेत् तावद् यावदादित्यदर्शनं सावित्रैरनघैरमन्त्रै ृपस्थाय कृताञ्जलिः आत्मपादौ तथा भूमौ सन्ध्याकालेऽभिवादयेत् यस्य स्मृत्येति मन्त्रेण यदूनं परिपूरयेत् यस्तु सन्ध्यामुपासेत् श्रद्धया विधिवद्विजः न तस्य किञ्चित् दुष्प्रापं त्रिषु विद्यते दिवसस्यादिमे भागे कृत्यमेतदुदीरितम् एवं कृत्वा क्रियां नित्यं हरिपूजां समाचरित। शुचौ देशे नियतो वा शुचि शुचिः वृत्तं वा चतुरस्रं वा मण्डलं गोमयेन तु विधायाश्च दलं कुर्यात् तण्डुलैर्व्रतसिद्धये सौवर्णं राजतं ताम्रम् ृण्मयं सुदृढं नवम् अव्रणं कलशं शुद्धं स्थापयेन् मण्डलोपरि तत्रोदकं समापूर्यले तत्र स्थितो ब्रह्मा मध्ये मातृगणा स्मृताः कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ऋग्वेदोद अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः एवं संस्थाप्य कलशं तत्र तीर्थानि गंगा गङ्गागोदावरी चैव कावेरी च सरस्वती आयान्तु मम शान्त्यर्थं दुरितक्षयकारका ततः सम्पूज्य कलशम् उपचारैः समन्त्रकैः गन्धाक्षतैश्च नैवेद्यैः पुष्पैस्तत्कालसम्भवैः तस्योपरि न्यसेत्पात्रं ताम्रं पीताम्बरावृतं तस्योपरि न्यसेद्धैवं राधया सहितं हरिम् राधया सहितः कार्यः सौवर्णः पुरुषोत्तमः तस्य पूजा भक्तितत्परैः पुरुषोत्तममासस्य दैवतं पुरुषोत्तमः तस्य पूजा प्रकर्तव्या सम्प्राप्ते पुरुषोत्तमे संसारसागरे मग्नम् उत्तारयति यो ध्रुवं को न सेवेत लोके मर्त्यो मरणधर्मवान् पुनर्ग्रामाः पुनर्वित्तं पुनः पुत्राः पुनर्गृहं पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः तद्रक्षितं तु धर्मार्थे धर्मो ज्ञानार्थमेव हि ज्ञानेन सुलभो मोक्षस्तर्मं समाचरेत् देहरूपस्य वृक्षस्य फलं धर्मः सनातनः धर्महीनस्तु यो देहो निष्फलो बन्ध्यवृक्षवत् न माता च सहायार्थे न कलत्रसुतादयः न पिता सोदरा वित्तं धर्मस्तिष्ठति केवलं जरा व्याघ्रीवभयदा व्याधय शत्रो यथा आयुर्याति प्रतिदिनं भग्नभाण्डात्पयोगतरला तरङ्गतरला लक्ष्मीर्यौवनं कुसुमोपमं विषयाः स्वप्नविषया चलं चित्तं चलं वित्तं चलं संसारजं सुखम् एवं ज्ञात्वा विरक्तः सन् धर्माभ्यासपरो भवेत् अर्धग्रस्तो हि नाभेको मक्षिकामत्तुमिच्छतिषः किं सुखं हर्षयत्यहुः आघातं नीयमानस्य वध्यस्येव निरर्थकम् धर्मार्थं च यदा चित्तं न वित्तं सुलभं तदा यदा वित्तं न च तदा चित्तं धर्मोन्मुखं भवेत् चित्तं वित्तं यदा स्यातां सत्पात्रं न तदा लभेत् एतत् हृदयसम्बन्धो यदा काले तु सम्भवेत् अविचार्य तदा धर्मं यः करोति स बुद्धिमान् वित्त प्राचुर्य संसाध्य धर्माः सन्ति सहस्रशः पुरुषोत्तमे स्वल्पवित्तं साध्यो धर्मो महान् भवेत् स्नानं दानं कथायां च विष्णोस्मरणमेव च एतन्मात्रोऽपि गङ्गैव तीर्थं स्मर एव धन्वी वित्तं तु विद्यैव गुणास्तु रूपं मासेषु सर्वेषु तथैव साक्षान् मासोत्तमोऽयं पुरुषोत्तमो हि यद्यप्यसौ निन्द्यतमः सर्वेषु कृत्येषु मखादिकेषु तथापि साक्षात् भगवत्प्रसादात् तन्नाम नाम्ना भुवि यथा हस्तिपदे लीनं सर्वप्राणिपदं भवेत् धर्माः कलास्तथात् सर्वे विलीनाः पुरुषोत्तमे यथा मर्तरङ्गिण्या न समाः सकलापगाः कल्पवृक्षेण न समां यथा सकलपादपाः चिन्तारत्नेन रत्नानि न समानि यथा भुवि कामधेन्वा यथा गावो न पुरुषाः समाः न वेदैः सर्वशास्त्राणि पुण्यकालास्तथाखिलाः समो मासो नेत् पुरुषोत्तममासस्य दैवतं पुरुषोत्तमः तस्मात् सम्पूजयेद् भक्त्या श्रद्धया पुरुषोत्तमम् शास्त्रज्ञं निपुणं शुद्धं वैष्णवं सत्यवादिनम् प्राचार्यमथाहूय पूजाम् तेन प्रकल्पयेत् संसारसागरमतीव गभीरवेगम् अन्तस्थमोहमदनादिति उल्लङ्घ्य गन्तुमभिवाञ्छति भारतेऽस्मिन् भारते सम्पूजयेत् स इति श्रीबृहन्नारदीयपुराणि पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादि दृढधन्वोपाख्यानि आह्निककथनन्नाम विंशतितमोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु